हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमदध्यात्मरामायणे युद्धकाण्डे त्रयोदश स्वर्गः श्रीमहादेव उवाच तथा चक्रसहस्राक्षो यमश्च वरुणस्तथा कुबेरश्च महातेजा पिनाकी वृषवाहनः ब्रह्मा ब्रह्मविदां श्रेष्ठो मुनिभिः सिद्धचारिणे पितरसाध्या गन्धर् वाप्सरसूरगः एते चान्ये विमानाग्रे आजग्मु यत्र राघव अब्रुवन् परमात्मानं रामं प्राञ्जलयश्च ते कर्ता सर्वलोकानां साक्षी विज्ञानविग्रह वसूनाम् अष्टमोषे तं रुद्राणां शङ्करो भवान् आदिकर्तासि ब्रह्मा त्वं चतुरानः अश्विनो घणभूतो चक्षुषी चन्द्रभास्करौ लोकानाम् आदिरन्तोऽसि नित्य एक सोदितः सदा शुद्ध सदा बुद्ध सदा मुक्तो गुणोद्वयः तन् भाया समृतानां तं भाति मानुच विग्रह तन्नाम स्मरतां राम सदा भासि चिदात्मकः रावणेन हृतम् स्थानम् अस्माकम् तेजसा सह त्वयाद्य नियतो दुष्ट पुनः प्राप्तं पदम् सुखम् एवम् स्तवस्तु देवेषु ब्रह्मा साक्षात् पितामह अब्रवीस्तुनतो भूत्वा रामं सत्यपथे स्थितम् ब्रह्मोवाच वन्दे देवम् विष्णुमशेष स्थितिहेतुम् तामध्यात्मज्ञानीरम् सर्वदि भाव्यम् हेय हेयद्वन्द्वविहीनम् परमेकम् सप्तामात्रम् सर्वदिरूपम् प्राणापानो निश्चय बुद्ध्या श्रुतिरुद्ध्वा चित्वा सर्वं संशयबन्धम् विचयोघान् पश्यन्तीशं यं गतमोहा यथयस्तम् रत्नकिरीटं रविभातम् मायातीतं माधवमाजम् जगदाधिं। मानातीतम् मोहविनाशम् मुनिवन्द्यम् योगी ध्येयम् योगविधानम् परिपूर्णम् वन्दे रामं रञ्जितलोकम् रमणीयम् भावाभावप्रत्यहीनम् भव मुखे योगासक्तिरचितपादाम्बुजयुग्मम् नित्यम् शुद्धम् बुद्धमनन्तम् वन्दे रामम् वीरमशेष सुरम् स्तम्बेनाथो नासिक नासित कार्या खिलकारी मानासीतो माधवरूपो खिलधारी भक्त्यागम्यो भावितरूपो भवारि योगाभ्यासे भावित, योगा भावित चेत् सचारी सामाद्यन्तं लोकततीनां परमेशम् लोकानाम् नो लौकिकमानेरधिगम्यम् भक्ति श्रद्धा भावसमेते भजनीयम् वन्दे रामम् सुन्दरमिन्दिवरनीलम् को वा ज्ञातुम् त्वाम् मतिमानम् गतमानम् मायासक्तो माधवशक्तो मुनिमान्यम् वृन्दारण्ये वन्दित वन्दे रामम् भवमुख वन्द्यम् नानाशास्त्रै वेदकम् वै प्रतिपाद्यम् नित्यानन्दम् निर्विशयज्ञा नमनाधि मत्सेवार्थम् मानुषभावम् प्रतिपन्नम् वन्दे रामम् मरकतवर्णम् मधुरेशम् श्रद्धायुक्तो यः पठति मम तव माद्यम् ब्रह्मम् ब्रह्मज्ञानविधानम् भुविमर्त्य रामम् श्यामम् कामि च काम पदमीचम् ज्ञात्वा ध्यात पातकजाले विगत स्यात् श्रुत्वा सुतिम् लोकगुरो विभावसु स्वाङ्ख्ये समादाय विदेह पुत्रिकाम् विभ्राजमानाम् विमला रुणद्युतिम् रक्ताम्बराम् दिव्यविभूषणान्विताम् प्रोवाच साक्षे जगताम् लघुतमम् प्रपन्न सर्वार्थिहरम् हुताशन गृहाण देवीम् रघुनाथ पुरा त्वया मय्यवरोऽपिताम्बने विधाय मायाजनकात्मजाम्हरे दशा न प्राणविनाश नय च हतो दशा च स पुत्र बान्धवी निराकृतो नयेन भरो भुवप्रभो तिरोहिता सा प्रतिबिम्बरूपिणी कृता यदर्थं कृतकुच्यतां गता ततो तिरूष्टां समप्रवृष्ट प्रतिपूज्य पावकं, स्वाङ्ख्ये समावेश सदा न पायिनीम् श्रियं त्रिलोकी जननीं श्रियपति दृष्ट्वाथ रामं जनगात्मजायुतम् श्रियस्थुरन्तं सुरनायको मुदा भक्त्या गिरा गद्गदया समेत्य कृताञ्जलितोमथोपचक्रमे द्रौवाचे भजेऽहं सदा राममिन्दीवराभम् भवारण्य धावनराभाभिधानम् भवा निरुधाभावितानन्दरूपम् भवा भावहेतुं भवादिप्रपन्नं भाव भवा सुरानेक दुःखनाशैकहेतुम् नराकार देहम् निराकार मीढ्यम् परेशं परानन्दरूपं वरेण्यम् हरिं रामीशम् भजे भारनाशम् प्रपन्नाखिलानन्दोहम् प्रपन्नं प्रपन्नातिनिशेष नाशाभिधानम् तपो योग योगीश भावाभिभाव्यम् भजे राम मित्रम् सदा भोग भाजां सुदूरे विभान्तम् सदा योग भाजाम् चिदानन्दकन्दं सदा राघवेशम् विधेहात्मजानन्दरूपं प्रपद्ये बाह्योगमाया विधेचानुयुक्तो विभाषिश लीलानराकार्यवृत्ति सदानन्दलीला कथा पूर्णकर्णा सदानन्दरूपा भवन्ती ह लोके अहं मानपानाभिमत्त प्रमतो न वेदाखिलेशाभिमानाभिमान इदानीम् भवत्पादपद्मप्रसादात् त्रिलोकाधिपत्याभिमानो विनष्ट पुरद्रत्नकेयूरहाराभिरामम् धराभारभूतासुरानेकदावम् भूतसुरा चन्द्रवक्त्रम् लथत् पद्मनेत्रम् दुरावारपारम् भजी राघवेशम् सुराधीश नीलाव्र नीलाङ्गकान्तिम् विराधाधि रक्षोवधाल्लोकशान्तिम् किरीटाधिशोभं पुरारापि लाभम् भजे रामचन्द्रं दघुणामधीशम् लचन्द्र कोटिप्रकाशादिपीठे पीठे, मङ्के समाधाय सीताम् पुर हेमवर्णां तडित्पुञ्जभातम् भजे रामचन्द्रम् निवृत्ताति चन्द्रम् तत प्रोवाच भगवान् भवान्यासहितो भवे रामं कमलपत्राक्षम् विमानस्थो नभस्तले आगमिष्याम्ययोध्यायां द्रष्टुं तां राज्य सत्कृतम् इदानीं पश्य पितरम् अस्य देहस्य ततो पश्यद्विमानस्थम् रामोदशरथम् पुरः न नाम शिरसा पादो मुदा भक्त्या सा अनुजः आलिङ्ग्य मूर्ध्यवग्राय रामं दशरथो ब्रवीत् तारितोऽस्मि त्वया तो वत्स संसारात् दुःखसागरात् इत्युक्त्वा पुनरालिङ्ग्य ययो रामेण पूजितः ज तम दृष्ट प्राहेतांजलि मकृते नेता पति जीवया शु सुधा वृष्ट्या सहस्राक्ष मम तथेत मृतवृष्टिया जीवया मत वान ये मृधा मृधे पूर्वं ते, ते सुप्त पूर्व बलिष्टा रामपार्श्वमुपाययु न स्थिता राक्षसा तत्र पीयूष स्पर्शनादपि विभीषणस्तु साष्टाङ्गम् प्रणिप्रत्या देव मामनुगृह्णीष्व मयि भक्ति यदा तव मङ्गलस्नानमध्यर्थं कुरु सीता भ्राता श्वोगमी ीचरणच श्रुत्वा प्रत्युवाचरघोत्तमः सुकुमारोऽति भक्तो मे भरतो मामवेक्षते जटावल्क्रधारीत शब्दब्रह्म समाहितः कथं विना स्नानम् अलङ्कारादिकम् मम अत विशेषतः पूयतेषु पूजितोऽहं न संशयः इत्युक्तो राघवेणाशु स्वर्णरत्नाम्बराणि च वचः राक्षसश्रेष्ठो यथा कामम् यथा रुचिः ततस्तान् पूजितान् दृष्ट्वा रामो रत्नय च यूसपान् अभिनन्द्य यथा न्यायम् विसर्ज्य हरीश्वरान् विभीषण समानीतम् पुष्पकम् अरुरोह ततो राम तद्विमानम् मरुत्तमम् अङ्के निधाय वै देहिम् लज्जमानाम् यशस्विनीम् लक्ष्मणेन सह भ्रात्रा विक्रान्तेन धनुष्मसा अब्रवीच्च विमानस्थ श्रीमान् श्रीराम सर्वम् सुग्रीवम् हरिराजम् च अङ्गदम् च विभीषणम् मित्रकार्यं कृतं सर्वं भवद्भिः सह वानरे सर्वे यथेष्टं गन्तु सुग्रीव पति आह्याशु किन्धां सर्वसैनिकै स्वराज्ये वसलङ्गायां मम भक्तो विभीषण न त्वं धर्चयितुं शक्ता सेन्द्रा अयोध्यां गन्तुमिच्छामि राजधानीं पितुर्मम एवम् मुक्तासु रामेण वानरास्ते महाबलः ऊचु प्राञ्जलय सर्वे राक्षसश्च विभीषणः भी अयोध्यां गन्तुमिच्छामहे त्वया सह रघुतमः दृष्ट्वा तम् अभिषिक्तं तु कौसल्यामभिवाद्य च पश्चाद्वणी महे राज्यम् अनुद्यां देहि न रामस्थेति सुग्रीवम् वानरैः स विभीषणः पुष्पकम् स नुमा च शीघ्रम् आरोह साम्प्रतम् ततस्तु पुष्पकम् दिव्यम् सुग्रीव स सेनया विभीषण च सामात्य सर्वे चारुरुहुर्द्रुतम् तेष्वारूढेषु सर्वेषु कौबेरम् परमासनम् राघवेणाभ्यनुज्ञातम् उत्पपात विहायतः भवतेन विमानेन हंसयुक्तेन भास्वतः प्रवृष्ट भास्करबिम्बतुल्यम् कुबेरयानं तपसानुलब्धम् रामेण शोभां नितरां प्रपेदे सीता सुमेतेन सहानुजेन इति श्रीमद् ध्यासरामायणे उमामेश्वरसंवादे युद्धकाण्डे त्रयोदश सर्गे श्रीसीतारामचन्द्रार्पणमस्तु